श्रीहरये नमः अथ दशमोऽध्यायः वितुर उवाच अन्तर्हिते भगवति ब्रह्कालोकपितामहः प्रजाससर्ज कतिधा दैहिकीर्मानसीर्विभु ये च मे भगवन्पृष्टास्त्वय्यर्था बहुवित्तमा तान् सूत उवाच एवं संजोदितस्ते नक्षत्रा कौशारवो मुनिः प्रीतप्रत्याघतान् प्रश्नान् हृदिस्तानथ भार्गवां विरिञ्चोऽपि तथा चक्रे दिव्यं वर्षसतं तपः आत्मन्यात्मानं आवेश्य यथाह भगवान् जहा तत् विलोक्याब्जसम्भूतो वायुना यदतिष्ठितः पद्मममं भश्च तत्काल कृतवीर्येण कम्पितम् तपसा हेधमानेन विद्यया चात्मसंस्तया विवृद्धविज्ञानबलोऽन्यपात्वायुंसहाम्भसा तत् विलोक्यभियत्वपि पुष्करं यदतिष्ठितम् अनेन लोकान् प्राग्लीनान् कल्पितास्मीति अचिन्तयत् पद्मकोशं तथा विश्य भगवत्कर्मचोदितः एकं व्यभाङ्क्षी तुरुधा त्रधाभाव्यं द्विसप्तधा एतावाञ्जीवलोकस्य संस्थाभेतसमाकृतः धर्मस्य निमित्तस्य विभागः परमेष्ट्यसौ पितुर उवाच यथात्त बहुरूपस्य हरेरद्भुतकर्मणः कालाख्यं लक्षणं ब्रह्मन् यथावर्णयनः प्रभो गुणव्यतिकराकारो निर्विशेषो प्रतिष्ठितः पुरुषस्तदुपाधानम् आत्मानं लीलया सृजत् विश्वं वै ब्रह्म तन्मात्रं संस्थितं विष्णुमायया ईश्वरेण परिच्छिन्नं कालेन अव्यक्तमूर्तिनां यथेदानीं तदाग्रे च पश्यात् अप्येतदीश्रुसं सर्गो नववितस्तस्य प्राकृतो वै कृतस्तु यः कालद्रव्यगुणैरस्य तिसङ्ग्रमः आद्यस्तु मखतत्सर्गो गुणवैषम्यम् आत्मनः द्वितीयस्त्वमहो यत्र द्रव्यज्ञानक्रियोदयः भूतः तन्मात्रो द्रव्यशक्तिमान् चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः वैकारिको देवसर्गः पञ्चमो यन्मयं मनः षष्ठस्तु समस सर्गो यस्त्वभुत्तिकृतः प्रभो प्राकृता सर्गा वैकृतानभिमे शृणो रजो बाजो भगवतो लीलेयं हरिमे सप्तमो मुख्यसर्गस्तोषत् वितस्तस्तुषां चयहा वनस्पत्योषधिलता त्वक्साराविरुधो द्रुमाः उत्स्रोतस्तमः सो अष्टाविंशत् वितोमतः अभिधो भूरितमसो ग्राणज्ञाहृत्य वेदिनः गौरजो मखिषकृष्णस्सुकरो गभयोरुरुहो त्रिसभा बसवश्चेमे अवृष्टश्च सत्तमा करोस्वो स्वतरो गौरव शरभश्च मरीतथा एते शैकशपाक्षक्त शुणु पंच नशू स्वा शुभ वृको व्या्रजर सीर्घज्रवट से हमस सारस चक्राव काोत न नृण रजोदिका कर्म कर्मरा चूकम वैकृद त्रय एवेते देवसर्गश्च सप्तमः वैकारिकस्तु यः प्रोक्तः कौमारस्थो भयात्मकः देवसर्गशाष्टविधो बिभुथा पितरोऽसुराः गन्धर्वाप्सरसः सिद्धा यक्षरांसि चारणाः भूतप्रेतपिशाचास्य विद्याद्राकिन्नरादयः दसैते विधुः सर्गास्ते विश्वश्रुकृताः अतः परं प्रवक्ष्यामि वंसान् मन्वन्थराणि च एवं रजक्लु स्रष्टा कल्पादिषु आत्मभूर्हरिः सृजत्यमोकसङ्कल्प आत्मैव आत्मानमात्मनः गुणव्यत्ययये तस्मिन् मायाविद्वा न पौर्वापर्यमिश्चन्ते नद्यां भ्राम्यद्भ्रमेरिव देवाशुराधयक्षक्तः कल्पेऽस्मिन् ता ये च कीर्तिताः त एव इति श्रीमद्भागवते महापुराणे तृतीयस्कन्ते दशमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा गोविन्द सद्गुरुमहाराज के जय